सक्रादयसुरगणा निहतेति वीर्ये तस्मिन् दुरात्मनि सुराबलेतदेव्या त्वां तुष्टवप्रणतिनं प्रसिरोधरा त्यामम् विकाम् अखिल दे वमः भगवानन्तु ब्रह्मा हरश्च न हि वा तुमलं बलं च परिपालना मतिं करोतु यासे स्वयं सुकृतिनां भवनेश्वलक्ष्मी पापात्मनां कृतधिया हृदये शुबुद्धि श्रद्धासताङ्कुलजन प्रभवशलजा त्वां त्वां नतास्म परिपा लयते विवेश्वं किं वर्णयां तवरो मम चिन्त्यमेत किं चातिवेयमसुर stada gatam trigulam हि परमा प्रकृते समाद्या यस्या समुदे sevaye pe trigana syatate सुनीयते दियतत्वसारे मोक्षा विमल यज कृताधिवासा गौरीत्वमेव चिमो दप्रतिष्ठासममलं सह परिपूर्णचन्द्र बिम्मानुकारिकनको न्तिकान्तम् अत्यद्भुतं प्रहितमास्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषा सुरेण दृष्ट्वा भृगुटेकरालम् उद्यच्छ शाङ्कसदृश च वियन्न सद्य प्राणान् मोचमहिष तदतेवचेत्रं केव्यतेः गुप्ता दर्शनेना देवे प्रसेद परमा भवति भवाय सद्यो विना सयसि को भवते कुलानि विज्ञातमेतदनै वयदस्तमे धनानि तेषां तेषां जशांसि नचे दतिधर्मवर्ग धन्यास्त एव निभृता देव कर्माणि अत्यादृतप्रतिदिनम् सुकृते करोति स्वर्गम् प्रयाति च ततो भवति प्रसादा दुर्गे स्मिता हरसिभिः कमशेष जो स्वस्थे स्मृता मतिमते वशुभां ददासि दारुद्रदुःखभ sarvo ृत्यमधिगं यदिवं प्रयान्तु मत्प्रेति नो न महिता विनिहल्सि देवे दृष्टैव किं न प्रकरो नरिषुय रहिणो शिशस्त्रम् लोकान् प्रजान्ति रिपवो विहश्रपूता इत्थं मतिर्भवति ते स्फुरणे तथोग्रे शूलाग्रकान्तिनिवहे न दिशोशुराणाम् यन्नागताविलयमल् सुमदिन्दुखण्ड दुर्वेत्तवेत्तशमनं तवदेविशीलम् रूपं तथैतदविचिन् दमचुल्लमन्ये वीर्यं च हन्त्रि तदे वपराक्रमा ैरे शपे प्रघटिते वदया त्वेथम् केनोपमा भवतु ते शप चित्ते कृपासमरणे स्थुरता च देशा त्वयेवदेवि वर्दे धुवर्णत्रये त्रैलोक्यमेतदखिलं विपुणासने तं तया दनिते धितेपि नीता दिवं रिपुगणां भयमाप्यपासम् पाहि खड्गेन चाम्बिके झण्टास्वनेन पाहि चापजनिस्वनेन च प्राच्यां रक्षप्रतिचां च चण्डिके रक्षदक्षिणे ब्राह्मणेनात्मशूलस्य निरूपाणि तैलोके विचरन्तिते ते यानि चातुर्थ घोराणि तैरक्षास्मास्तथा भुवं खड्गशूलददादेन यानि चास्त्राणि तेऽम्बिके करपल्लव सर्वतह तैरस्मान रक्ष सर